अञ्जन्दिक्त्वा मध्वरे देवयन्तः वनस्पते मथुना दैर्येण यतोध्वस्तिष्ठा द्रविणे कथत्तात् यद्वाक्षयो मातुलस्या उपस्थे उच्छ्रयस्वनस्पदे पष्पन् पृथिव्याधि सुमिति मीयमानः भर्चोधाग्यवाहसे समिद्धस्य श्रयमानपुरस्तात् ब्रह्मवन्दाणो अजरकम् आरे अस्मदवजिम्बासमानः उच्छयस्व महते सौभगाय ओर्ध्वभूषणदये तिष्ठा देवो नोर्ध्ववायस्य सविधाय सन्धिभिः पाठच्छामहे ओर्ध्वो न पाठ्यमोहसोऽकेतुना विश्वसंसमत्रिनन्दः कृतेन वोर्ध्वाञ्जलसाय जीवसे पिता नेमेषु न मधुमः ुवासा परिवेदाश्रेयात्मवन्धीराकवयमुन्नयन्ते स्वाभियामनसादेवयन्तः सुपाजामत्यः घृदन्यक्स्वाहुतः अग्नियज्ञस्य ह व्यवहारं सपास यतस्विनः इत्थाया यहां वर्ण उतमी अने वर्धनिवशिष्ठा सो यूय पार स्वस्था सभी था घन्ना पृथिव्या संगठे राष्पन्देस्ज होदायक्षत्तमो नपातमतिदे गम् भुवनस्य गोपाद्यदेवो देवे द्वोदेवयानाम् अथो अनक्त्वे त्वाद्यस्य होदर्यज होदायक्षन्नराशकम् सन्द्रन्द्रे कनेत्रम् गोभिर्वपाभाेदैः मोदायक्षग्निविडयीजो देवो देवालक्षद्धूतो हव्यमानमोरः उपेमै यज्ञमुपेमाम् देवो देवहूतिमव दुवेस्य होदर्यज मोदायक्षद्वरिः सुष्ठेमोग्नम् वदामिज्ञे विष प्रजप्रसरागस्वारस्थम् देवेभ्यः हेमे नद्यवसमो रुद्राः यत्या स्वदन्धप्रियमिन्द्रस्यास्तृवे त्वाद्यस्य होदर्य भवता यक्षद्वनिष्पार्कवश्योको रतापनेदाताभिर्तिगताम् विपक्षाभिश्रयन्ता स्वप्रायणा अस्मिनि यज्ञेऽभिश्रयन्तायन्तास्य होदर्गज भवता यक्षदृषा नेषाम् रेगपरिभ्रो योनिम् कण्वाणे स्पजमाने इन्द्रेण धेनेरम् परिहृस्येतताम् भीतामाद्यस्य होतर्यज भोतायक्षत्रै व्या होतारा मन्द्रापोताना न की प्रदेसा शिष्टमद्यान्यकरविता स्वभिगोत्तमन्यभोर्जापदमशैमैल्यज्ञेन्द्रियदेवेण धत्ताम् गीतामाद्यस्य होतर्गिता भोतायक्षतिस्त्व देवेरपसा मोस्तमाच्छिद्रमध्यैरमपस्तन्वताम् देवेभ्यो देवे हो देवमागीन्ताद्यस्य देव देवे देवे, देव होतर्गिण होदायक्षत्वष्टारमजिष्टमुपायगो नोधाम् विश्वपदञशोधाम् पुरोपमकामकर् सुपोषकोषे स्यात्सवीरो वीरत्वाद्यस्य होदर्गिण होदायक्षद्वरस्पजमुपामस्रक्षद्भिजोजोष्टारंशमण्डलः स्वदात्स्वशीर्ददात्रेवो देवेभ्यो स्वाहां होंग्र अर्गस्तंतु समय मनोषा दुराणे देंो दिवायु आगम वि परन्तोऽतः कविरसि प्रचेताः कलो नुक्त्वानिधेतुरबन्धन् हे वद्राजगमह्यध्वरन्नः न राजगुन्धस्य मयमानमेषाम् एनस्य यज्ञैः हे सुकृतपश्विजयोभिगन्धाः तन्तु भगयानि हव्या आया आयाः यज्ञे मुजभिः सजोगाः तम् देवानाभेष् प्रहोताः सगेतो प्राचीनम् परिषदिशाब्धियाः वस्तोरस्याविद्यते अग्रे अह्नाः ब्यप्रसदे वितरम् वरीयः देवेभ्यो अजुदये स्योणम् विदस्वजेर्विजा विश्वयन्ताभ्यो नजनयः शुम्भमानाः जते उपागे, ृहदे विश्व्योपुर सुयण आशये कुषाण्योलो दिव्योषणे बृहते सुष्यक्रभंदे वे व्यादारा प्रथमा सुजा मनुषा विदध्य प्रचोदयता प्राचीरञ्जोजप्रतिशाढ्यन्ताः आनो यज्ञम् भारते योयमेदो इडामनश्वरयन्ते दे। तिस्रो देवेर्भैरेदज्ञस्योनाम् सरस्वते स्वपदः सदन्तोनित्रे रूपैरपिकंषद्भुवनानि विश्वाः देवम् दष्टालमधिलक्ष्य विद्वान् उपापशित्मन्यासमञ्जन् देवानाम् पादरुदधा हवेशे वनस्पदिशमिता देवो अग्नेः पदन्तुभव्यम् मधुनाभृतेन सद्यो जातोऽप्यमीनयज्ञम् अग्निदेवानाम् भवत्वलोगाः अस्य होगप्रदर्शितस्य भागे स्वाहागतकम् हरिदन्तु देवाः अग्नितहोतानो अध्वरे भाजी सन् परिणीयते देवो देवेऽपि यज्ञयः परित्रमित्यध्वरम् या त्यज्ञेण धेरिमा आदेवे शुक्रयोदधः कविः अग्निर्हव्यान्यक्रमेण दशत्रप्राणिदासिरग्निः अधनद्वाजन्ये देवो देवेभ्यो हव्यावान् प्राञ्जोऽभिरिगन्वानः जैनाभिः कल्पमाणः यज्ञस्यायप्रदिनप्रेष्य भवतः हव्या माता मन्यता अनुविदा अनुभ्यातासगर्भ्यः अनपखादयोक्ष्यः वेजेनागम् अस्य वतोनिषत्तान् सोऽयम् चक्षुद्गमयात् पादम् प्राणमन्वधिरदात्स्रात्रम् अन्तरे क्षमसम् पथिपेदम् शलीरम् एकथास्यमाक्ष्यतात् पुराणाभ्यामुत्खिदतात् अन्तरे वानम् भारयदात् शयणमस्य पक्षकृनुदा बाहो सदा दोषणे पश्यपे वा कपशोरोऽस्य क्षीवन्ता षर्भिकंशलस्य मङ्क्रयः तानिष्ठोक्षावयतान् गात्रम् गात्रमस्या नूनम् कणुतान् गोमध्यरोऽहम् पार्थिवम् कणुतान् अस्तारक्षस्तकंशजतान् अनिष्टमस्य भाराविष्टा पुरोगम् मन्यमाणाः दुषभिषमेध्वम् शमेध्वमध्रिको अध्रिपुश्चापापश्च उभौ देवारागं समितारोः तामिमम् पशुग्रपयताम् प्रभृद्भागो यथा यथा शश्रपणम् तथा तथा दुशस्वशस्तनम् अजो देवस्रमम् अव्यायुक्वान् आसने इमम् नारज्ञमुखतेर्विधेः इमाहव्याजातवेदोजनस्य स्तोकानामग्नेदतोधिनस्य ओदप्रासाहत्वसमोनिषत्य घृतवन्तवगते स्तोकाश्चोदन्तिमेतसः स्वधर्मम् देववीतये श्रेष्ठन्नो हिमार्यम् अभ्यग्स्तोकाघृतश्च्युतः अग्नेऽभिप्रायसन्त्य ऋषिश्रेष्ठः समिध्यजे यज्ञस्य प्रापिता भव अभ्यग्श्चोदन्त्यध्रिको सजीवः श्लोकासो अग्ने मेतसो घृतस्य कविशस्थ भी कथा हव्यास्वेरां ते मध्य मे तमुतमह सोदंकी देशो भी आवृत्रृत्रहाम इंद्रन्नमने अने अस्मेहोर मुतमें गम् हविः शक्षन् मनसा वस इच्छन् इन्द्राज्ञे ज्ञास उतवासजातान् नान्यायवस्तमह्यम् स वा ध्रियम् वा जयन्ते मदक्षम् होदायक्षदिन्द्राग्ने पुरोडाकस्य विषयदागम् हविः अविष्पन्दस्यन्मानुषासः यस्य देवे राम् गेर्भ्यवतिमिच्छमानः याजम् इन्द्रास्तरन्तेः ज्ञभ्याङ्कम् पुरुषो वदन्ति गृहन्तः नमस्यामस्तेदः गोतमर्जगमहव्यवाहम् एवागङ्गम् प्रथमा अस्याविः सह विश्वस्पेदः सेशेण्येद्यः सन् तन् पालनप्रसमन्दे वयन्तः महोराये अनुग्मन् प्रते वयन्तम् बहुभि संव्येः ते लेन्द्रा गृहापुंसो अनुग्मन् पृषन्तमग्न्तरिशतम् पृहन्तम् म् विश्वहारे दिवापुंसम् पदम् देवस्य नवसा पियन्तः श्रवस्य वश्रवः वर्णवर्क्रम् नामानि चेाने भद्रायाहन्तरणेन सन्दृष्टौ त्वाम् वर्धन्ति क्षतिरः पृथिव्याम् रघुङ्राज उभयासो जनानाम् परम् राताकरणे चेत्यो भोः पिता माता च रविम्मानुषाणाम् सपर्येण्यः सियाविश्वः सं, नमसा भवता मन्त्रवर्षदा तन्त्वावयन्तमादिवागुंसम् उपाज्ञाधो नवसा सुन्त्वायगुंसुधेवानव्यमग्ने सुम्नायवहीमहे वयन्तः योद्यानः दिवृहतावचनेन विशाति सरस्वतीनाम् विभवशाम्बपञ्चर्षणीनाम् प्रेतेषिणविषयन्तम् पावकम् कार्लंगयीना सोभर्गे समे समाहुरी पेवेद नमो भे। ते मही महें भी विश्वसभा अस्वुेमेम नमो सतह वेदीशो नोशेरक्स पाते भद्रायागमत ये मयस्थदे विभा भिश्च श्रवस्य स्वरुत्रः बृहद्भिरमादे स्थविरेभिरस्मेद्भिरग्ने विभाहित्यस्मे भूरितपकायनिराय वस्पः ओर्वेणो बृहतीराजे अघाः अस्मे भद्रासो श्रवसानि सन्तो पुरोग्ने पुरुधा त्वाया वसूनिराजन् वसुधादे अस्याम् पुरोनिहि उपा आज्ञे वसुविधरे राजनित्वे आभरणम् शिक्षतम् वग्रबाहुः अस्माक्याः सौर्यस्य एभिः स वित्तम् विगदानायन् भवतायक्षिह्नाज्ञे छागस्य हविषहाद्भृतम् पुराग्भ्यः पुरापौरुषेय्यास्तान् नूनम् घाते अग्राणाम् विवसप्रसवानाम् समक्षराणाम् शरुद्रयाणाम् अग्निष्पात्तानाम् पीवोपवसनानाम् पार्श्वना वदमुत्साधः अङ्गारङ्गारवत्तानाम् करदयरेन्द्राग्ने जुषेता हवेः वनस्पदे हवे हिरण्यवर्णप्रतिवस्ते अर्थम् प्रदक्षिणेत्रया योज नस्य क्षपतिभेर यतेन्द्राग्मानि यत्र वनस्पतेः प्रियापाशा यत्र जयमानामाजमानाः प्रियाधामानि यत्राज्ञे प्रियाधामानि अत्र इदम् प्रस्तुत्येव पावस्रक्षते अभीयागम् समर्थे करदेवम् देवो वनस्पतिः जगरागम् हविः होदलिवागम् विद्वागुमृदोगम् एव्यादिभिरग्नेत्रेणामस्यायजिष्ठः होराक्षरग्ज्ञकृतम् अयादग्नेन्द्राग्निगस्य हविडप्रिया अयात्मनस्पदे अयाः देवानानि यक्षदग्ने यक्षम् महिमानौ आयुषलामे ध्यायुधः कृणोदोहध्वरादवे लालाः द्विषदागम् हविः यजा उपोहयद्विषधम्भाजनोगोः क्षमानाः अर्वन्तोनकाष्ठान्नक्षमाणाः इन्द्राग्ने वनस्पते विद्वान् वत्रादिताग्तम् अयानग्ररिन्द्राग्निग्रागश्च हविनः प्रिया रामाणि अयाद्मनस्पतेः प्रियापासागंसे अयाः देवानामाजपानः प्रियासामाने यक्षदग्नेयासामाने प्रिया यक्षस्वम् महिमानौ आयजतामेऽद्याविषः कृणौ विश्वाध्वरातवेदाः विषदागम् हविः विश्वस्य होदः पादविशो हो जयमेना वियध्वोः है अध्या, देवं वीरे अनव्यायाद्यामस्व सीद्वेस्ता प्रभृत यनिया बुद्धेय से देवे तो में तो जा। कुमारो हेरे अद्वार सभी होत्सी मेना कुमारजाइना प्रसुवने प्रयत्वंदे विष प्रायादुने ष्टे वसुभिरन्याघागम् त्रियोषुभार्याजमानाय वसुमय मृधेयस्त्वमेताय हे मोर्जाहुतेषमोर्जमन्यावक्षिगम् समेजुमन्यामवेयमानास्याम पुराणे नवन्तामोर्जमोर्जाहुते मोर्जयमाने अधाताम् वसुमये मृधेयस्य मेताय ोताराणेरष्टारापोतारा हता वा भरद्वसो वधुवने मधुधेयस्त्वे अष्टिस्वस्तिस्वदेवी सरस्वदे भारवेद्याम् भारत्यादित्येरस्तक्षरस्वदेवत्या समाजम् पदेन वधुवने मधुधेयश्च विङ्गयज देवो नराजगुण्डस्तृशेषाक्षेण कुशलावीन्तिभित्रा वरुणेतस्य क्रमरभता बृहस्परिस्ता क्रमश्विराध्वर्यवम् वधुवने वृद्धेयस्य वेदेन देवोपनस्पतिरपावघलेन्द्रज्ञामक्रेणास्वक्षरान्तरिक्षम् मध्ये न प्राप्पृथिवीपरेणा विभेत् मधुवने वृधेयस्य ेवम् परिहर्वादिलेनाम् विशेषाभिप्रच्युतेनामप्रच्युतम् निकामधर्मम् पुरस्पाठम् इदस्पदे देवान देवो अज्ञस्मित्समिनाः कविः सत्यमन्मायदेहो ताहो दुरहोयाग्नेहो लाभो मृध्येयस्य नाम वाचेण देवम् पसुवने मृधेयस्य वेदो वसुमने वृधेयस्य वियन्तो हेली उषासानकाः वसुमने वृधेयस्य बीता हेलीजोष्ट्रेः वसुमने वृधेयस्य वीताम् हेली ऊर्जाहुदे वसुमने वृधेयस्य बीताम् देवादे व्याहोतारः वसुमने वधुधेयस्य बीताम् देवे स्तिष्वस्तिस्व देवेः वसुमने वधुधेयस्य बियन्तो नाशुंसः अशुमने अध्येयस्य वेदो देवो वनस्पतिः अशुमने अध्येयस्य वेदो देवम् बलिहर्वारुदीना असुमने अध्येयस्य वेदो देवो अग्निस्पष्टके शुद्रविणा मन्दः कविः सत्यमन्मा यजीहोदाो तदहो तदा यजीयान् एते होत्रे अवत्सदा ता गुण् यज्ञमेत एवम् शिष्टकृत्याभूः तद्वदेव विधेयश्च नमो भाग्येवीः अज्ञमद्य होदारोवणे तार दायिङ्गजमानः पजन् भक्ते पदङ्कुरोणासंबद्धिन्द्राग्निर्भ्याच्छागं सोमस्थाद्य देवो वनस्पतिरफन्द्राग्निभ्याञ्चाघेनाहस्तान्तं मे नस्तप्रतिभजताग्रभे श्यामवे सेना पुरोणा वेणत्वारिणान्न रघोद्भ्यादङ्गे शुभसुकार्याय च रैताय देवनाग्नि दस्थान्य स्वाचगुरः प्रेषितस्य प्रेषितमार्गस्योक्तमाकार्यसोक्त ब्रूहि